गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् वन् क उवाच ततस्तु दशमे वर्षे सुखासीनं महेश्वरं गिरिजासहितं वा मे सप्तकोटिगणान्वितं नृत्य तं तं मयूरेशं पश्यन्तम् स्वाङ्गणेशिषुम् आययोर्मुनयः सर्वे गौदमाद्याः प्रणम्यतम् ऊजुप्रबुद्धमदयो महादेवं महौजसं यावत्कालं शिवात्रत्वं मयूरेश समन्वितः स्थितोऽसि तावद्दैत्यानामनन्तानां समागमः वेम प्रपीड्यामोन्य शिवाधुना व्यंव्य वा गाम यद्या भवदरा शिव उवाच संगेन न मै नववर्षा सौख्य आदिराता मयूरेशे ना च भवतां गमनेस्माकं स्थित्वा किन्नु प्रयोजनं अहमेव प्रयस्यामि स्थलमन्यन्निराकुलं क उवाच इति शम्भुवच श्रुत्वा मुनयस्थं प्रणम्यते जयदेवमयूरेशेत्युक्त्वा स्वस्थानमाययुः शिवोऽपि गणसं युक्तो वृषारूढोऽम्बिकायुतः बर्ह्यारूढं मयूरेशं पुरस्कृत्वा मुदान्वितः नानावादित्र निर्घोषैर्नादयन्विष्टपं तदः अन्वयोर्मुनय सर्वे मयूरेश्यं शिवान्वितम् पत्न्योऽपि बालकैः सार्धं स्नेहगद्गदभाषिभिः रजसा व्योमनितदे न प्राज्ञा यद किञ्चन परावृत्य शिवः दक्षिणाभिमुखो ययौ ददृश्योर्मार्गमध्येतं द्वादशाक्षौहिणीयुतम् कमलासुरमायान्दं धूसरितांबरं गजाश्च पुरदो यान्तिरथाश्वपादचारिणः न ज्ञायदे रवेस्तेजशस्त्रदीप्याध किञ्चन कोलाहलो महानासीत् गजाश्वरथपत्तिनः नानाविधानां शस्त्राणां सङ्घट्टस्वनमिसृदः ददृशुस्तम् महादैत्यम् शिवाचाराः पुरोगताः शङ्खासुरस्य तम् बन्धुम् नानाभूषा विराजितम् नानायुधधरम् प्रोचुरागत्य दु पादाखादेन तस्याशुकम्पदे कमढादयः मुनयोग्रे चराःपे दुर्भयभीतास्तमब्रुवन् मयूरेशमहाभाग कथं रक्षसि नोकिलान् क उवाच इति तद्वचनं श्रुत्वा प्रावदत् सद्गुणेश्वरः विद्यमाने शिवे मुनि कार्यामुनिपुङ्गवा मयूरे शोहरं प्राह नमस्कृत्य ततः पुनः देव उवाच महासेनायुधो दैत्यो नाम्ना सौ कमला सुरः यदि तेऽनुग्रहो मे स्याद्युद्धाय शुव्रजाम्यहं शिव उवाच सम्यगुक्तं त्वया पुत्र हृदयानन्दनं वचः द्वादशक्षौहिणीसेनायुतोत्सौ दैत्यपुङ्गव यकाकी कथमायासि सप्तकोटिगणायुर्युदः वज्र्याप्नुहि जयं शीघ्रं जहि शत्रुं महाबलं देव उवाच तव प्रसाद्यम दहेयद मे मद कियो न हता दैत्यास्ते नुकम अ गणना स्वामीनाया जय वनहम क उवाचर्ण्य तदाक्यम शंभूरालिंग्यम दद त्रिशूलम् पुत्रहस्ते तन्मूर्ध्निन्यस्त्यकरम् शुभम् आज्ञाम् ददौ स्वपुत्राय गणयुक्ताय शङ्करः क्ष्वेडितैर्जयशब्दैश्च नादयन् स दिशोदश प्रययौ प्रमथैर्युक्तो विघ्नः युद्धलालसः वृषारूढशिवा युक्तो हरोऽपि द्रष्टुमन्वगाद दृष्ट्वा पारां दैत्यसेनां शरीरतः, निर्ममे बहुलां सेनां तदो युद्धमवरुत कालानुरूपास्ते वीरा ब्रह्माण्डाः मेरो मेरोरथिकमानास्ते शब्दशृङ्गपादिनः परस्परं निजघ्नोस्ते तु मूले संयुगे तदः अंधकारो महानासि द्रजसाच्छादितादिशः विस्मयं चक्रिरे दैत्या इदानीमयमेकलः अनेकदां कथं यादस्तस्मादेश परः पुमान् भूभारं हर्तुकामोऽयमवतीर्ण शिवालये सोऽपि दीर्घतरम् रूपम् तथार सहसा विभुः दृष्ट्वा दीर्घम् दैत्यरूपं योगमाया समावृतः दशायुधरो देवो दशहस्तो महाबलः मयूरेशश्च दैत्यश्च युध्यमानौ विरेजदुः नानाशस्त्रप्रहरणैर्नानायुद्धविशारदैः व्यस्ताव्यस्तमयुध्यन्तगणासेनाचराश्च ते मुष्टिप्रहारैर्दन्तैश्च शस्त्रास्त्रैरितरेतरम् केषाञ्चिन्मस्तका भग्ना अपरेषाम् मुखानि च जानुजङ्का विरहिता निपेतुरपरेरणे गर्जयन्तो दशदिशस्त्रास्त्रखादनिस्वनै स्वामिस्वनामदो जघ्नुरन्धकारे रजस्कृते कबन्धामारय्यंस्तत्र परान्स्वानपि सम्मुखम् दैत्यसेनाचरा भग्ना मेवान दैत्यमेवान्वयुस्त असंख्या मृदा प्राहुर्न्युस्तु रवा दैत्य लोकपाला इंद्रादक्रह्माद्या देवता गण निर्जिता को युद्धं कर्म मुत्सेद न्यु जेधु कोशक्त भविष्य क उवाच युक्त दोलयास श्रांदोलन दो जगद क्रोध संरक्तनयनों मरयास दैत्यरा मयूरे शकणा सर्वान्नावाहनहे भी का शिरः पादान् कृदीहस्तान् भित्वा भित्त्वा पादयदाहवे उत्कर्षम् तस्य तं दृष्ट्वा मयूरेशो ययुः पुरः च गर्जयन् व्योम दश शस्त्रद्विषोऽहनद असङ्ख्यादाहदा दैत्या मोक्तिम् प्रापु सुदुर्लभाम् दैत्य श्रीगणेशपुराणे क्रीडाखण्डे दैत्यसेनावधो नामैकशततमोऽध्यायः ओम्